गरुडपुराणम् आचारकाण्डम् अध्यायम् 177 एण्ड् सेवेण्टी सेवेन् हरिरुवाच सोभाञ्चनपत्ररसं मधुयुक्तं हि चक्षुषोः भरणाद्रोगहरणं भवेन्नास्त्यत्र संशयः अशीतितिलपुष्पाणिजात्याश्च कुसुमापि च उषा निम्बमला शुण्ढी पिप्पली तण्डुलीयकं छायाशुष्कां वडीं गुर्यात् पिष्ट्वा तण्डुलवारिणा मधुना सहसा साक्ष्णो रञ्जानातिमिरादिनुद बिभीदकास्तिमज्जादुशङ्घनाभिर्मनः शिला निम्बपत्रमरीचानी अजामूत्रेण पेषयेद पुष्पं रात्र्यन्धदां हन्दितिमिरम्बलं तथा चतुर्भागानि शङ्कस्य तदर्धेन मनःशिला सैन्धवं च तदर्धेन त्वे छायाशुष्कां तु वटिकां कृत्वा नयनमञ्जयेद तिमिरम्पडलं हन्दि पिचिडं च महौषधम् त्रिकडु त्रिफलां चैव करं जस्य भलानि च सैन्धवं रजनिद्वेव भृङ्गराजरस्य न पिष्ट्वा तदञ्जनादेवधिमिरादिविनाशनम् आडरूषकमूलं तु काञ्चिकापिष्ठमेव तु तेनाक्षि भूमी भूमि लोपाचक्षुशूलं विनश्यदि सतक्रम्बदरीमूलम्पीदं वाक्षिव्यधां हरेद सैन्थवम् कडुतैलं च अपामार्गस्य मूलकं क्षीरकाञ्चिकः संहृष्टं ताम्रपात्रे दुतेन च अञ्जनात्पिञ्चडस्यैव नाशो भवति शङ्कर ॐ ददृसरक्रों ह्रीं ठःठः ददृसरह्रीं ह्रीं ॐ ऊ सरक्रीं क्रीं टः ठह आद्याहिवशामायान्तिमन्त्रेणानेन चाञ्जनाद बिल्लुकनीलिकामूलं पिष्टमभ्यञ्जनेन च अनेनाञ्जितमात्रेण नश्यन्ति तिमिराणिः कडुकं तगरं चैव हरिद्रामलकं वच कदरपिष्टवात्तश्च नञ्जनान्नेत्र रोगनुद नीरपूर्णमुखोदौधि बृहन्मानेन योक्षिणी प्रभाते नेत्ररोगैश्च नित्यं सर्वैः प्रमुच्यते शुक्लैरण्डस्य मूलेन पत्रेणाभिप्रसाधितं चकदग्धसेकमौष्ण्या चक्षुषोर्वादशलनाद चन्दनं सैन्धवं वृद्ध पालाशश्च खरीत्यकी पडलं कुसुमं नीलीच च कृ हरदेञ्चनम् गुञ्जामूलं चागमूत्रे कृष्टं तिमिरनुच्य तत्रौप्यताम्रसुवर्णानां हस्तघृष्टशलाकया कृमुद्वर्धनं रुद्रकमलाव्याभिनाशनम् घोषाफलमपाक्रादम्पीदकामलनाशनादुर्वादाडिमपुष्पं तु अलक्तदकहरीतकी नासार्षवादरक्दन् उन्नस्याद्वैश्वरसेन हि आपिष्ट्वा जाङ्गलीमूलम् भद्रस्येन नस्यादारा नश्यादाराद्विनश्येद नाशार्षो नीललोहित कव्यं कृदं सर्जरसं रुद्रधन्यागसैन्धवं धुत्तूरकं गैरिकं च यदै साद्धिदसिद्धकं सतैलम् व्रणनुत्स्याच्च स्फोटितोद्धडिताधरे जातिपत्रं च च चर्वित्वा विधृतं मुखरो गनुद भक्षा केसरबीजस्य दन्तास्युच्चलिता स्थिराः मुष्टकं कुष्ठमेला च यष्टिकं मधुवालकं धन्याकमेद ददनान्मुखदुर्गन्धनुद्धर कषायं कटुकं वापि तिक्तशाखस्य भक्षणाद तलयुक्तस्य नित्यं स्यान्मुखदुर्गन्धताक्षयः दन्तव्रणानि सर्वाणि क्षयं गच्छन्त्येन तु काञ्चिकस्य स तैलस्य गण्डूषकवलास्थितिः ताम्बूलचूर्णदग्धस्य मुखस्य व्याधिनुच्छिव परित्यक्तश्लेष्मणश्च शुण्ठीचर्वणतो यथा माधुलुङ्कदलान्येलायष्टीमधु मधुच पिप्पली जादीपत्रमधैषां च चूर्णं लीढ्वा तथा कृतं जडायाश्च चर्वणं गलशुण्ठिनुदशाक्त कर्षान्नस्ये च शङ्करजिह्विक रसशिरीषबीजानं हरिद्रायाश्च दुर्गुणः ेन पक्वेन रोगनुद गलरोगा तक्षणाद तत्क्षणाद दन्तकीडविनाशहम्याद् गुञ्जा मूलस्य चर्वणाद नीलीकव्ययो नी मधुमोजितः दन्दाक्रान्तान्तजांश्च कृमिनाशयदे शिव कथं कर्कडपादेन दुग्धोन्मिश्रेण साधितं तेन चाम्यङ्गिदा दान्धा कुर्युकडकडान्न हि लिप्त्वा कर्कडपादेन केवले नाथवा शिव त्रिसप्ताहं वा पिष्टानि ज्योतिष्मत्या फलानि हि शुक्लाभया मज्जलेपान्दस्याङ्गकलङ्गनुदलोध्र कुङ्गुममज्जिष्टा लोहकालेयगानिज यव तण्डुलमेधैश्च यष्टिमधु समन्वितैः वारिपिष्ठैर्वक्त्रलेपस्त्रीणां शोभनवक्त्रकृद द्विभागं चागदुग्धनतैलप्रस्थं तु साधितम् रक्तवन्दनमञ्झिष्ठालक्षाणां कर्षकेण वा यष्टिमधुकुङ्कुमाभ्यां सप्ताहान् मुखकान्तिकृत शुण्डीपि परिचूर्णं तु गुडूचीखण्डकारिका एभिश्च क्वथितं वाजिपीतं चाग्निं करोति वै वादशूलक्षयं चैव गगेदिप्रथमेश्वर करञ्च पर्पणो क्षीरं वहति कडुरोहिणी गोक्षुरं क्वथितं त्वभिर्वाजिपीदं श्रमापहन् दाकं पित्तं ज्वरं शोषं मूर्च्छां चैव क्षयं नयेद् मध्वाज्यपिलीचूर्णं क्वथितं पीदं हृद्रोग कासस्य विषमज्वरनुद्भवेद् क्वाद्धौपधीनां सर्वासां कर्षार्धं ग्राह्यमेव च वयोनु रु यदो ज्ञेयो विशेषो वृषभध्वज दुग्धम्बीदं दुःसंयुक्तं गोपुरीशरसेन च विषमज्वरनुत्स्या च काकजन्धारसस्तथा मशुण्डी क्वथितं क्षीम जाया ज्वरनुद्भवेद यष्टिमधुकमुस्तं च सैन्धवम् बृहदीफलम् यदैर्नः स्वप्रदानच्च निद्रा स्यात् पुरुपस्य च मरीचप्रध्वश्वलानस्यान्निद्रा भवेच्छिव मूलं तु काकजङ्घाया निद्रा कृत्स्यािरस्थितं सिद्धं तैलं काञ्चिकेन तथा सर्जरस्य न च शीतोतकसमयुक्तं लेपात्सन्तापनाशनं शोणि तज्ज्वरदाहेभ्यो जातसन्तापनुत्तथा सृगशैवालमन्धश्च शुण्डिपापाणभेदकं सौवाञ्जनं क्षुरं वा वरुणच्छन्नमेव च सौभाञ्जनस्य मूलं च एतैः क्वथितवाजि च दत्त्वा हिङ्गुयवक्षारम्पीतं वादविनाशनम् पिप्पीली पिप्पलीमूलं तथा भल्लादकम् शिव वाेथैः क्वथितं पीदम् वरशूलापहारकृद अश्वगन्धामूलकाभ्यां सिद्धा वल्मीकमृत्तिका यदया मर्दना रुद्र ऊरुस्तम्भप्रशाम्यदि बृहदीकस्य वैमूलं सम्भीष्टमुदकेन च पीतं सङ्घातवादस्य विपाटनकृदेव च पीतं तक्रेणमूलं च आर्द्रस्य तगरस्य च हरे वादं वै वृक्षमिन्द्राशनिर्यथा अस्ति संहारमेकेन भक्तेन सहवादिदं वादिदं पदीं मां सरसेनापि वादनु चास्ति भङ्गनुदकृतलिप्तं सशुष्कं च च चागीक्षीरेण संयुधं तल्लोपात् पादयार्णंश्येत् संक्षेप्ये चात्र संशयः मध्वाज्य सैन्धवं सिग्धं गुडकैरिगुग्गुलैः ससर्जर सस्फुटिदक्लोमशुद्धिश्च कडुतैले कडुतैलेन लिप्तो वै विधूमाग्नौ प्रदापिधः मृत्तिकारखादिधः पादसमस्याद्वृषभध्वज सर्जरससिग्धकं च जीरकं च हरीतकी उत्साधितकृताभ्यङ्गोह्य अग्निदग्धवृथापनुद तिलतैलं चाग्निदग्धं यवभस्मसमन्वितम् अग्निदग्धव्रणं नश्येद्ब्रहुश ब्रहुषकृतलेपदः नवनीतमाहिषम् च दग्धपिष्टतिलानि च स भल्लाकम्रणम् नश्ये धृचूलम् नश्यलेपनाद कर्पूरगव्यसर्पभ्याम् प्रहारपूरिदोहर शत्रोद्भवम् सबद्धश्च शुक्लवर्णेन शङ्कर पाकं च वेदनां चैव संस्पृश्येद्वृषभध्वजा आम्रमूलरसेनैव शस्त्रखाधप्रपूरितः टौ कदेशस्त्रखादाभ्यां निर्व्रणो घृ पूरितः शरपुङ्गालज्जालुकापाठा चैषां तु मूलकं जलपिष्टं तस्य लेपस्त्रखादप्रशाम्यदि मूलं च काकजङ्घाया स्त्रिरात्रेणैव शोषितः पाकपूदिं वेदनां च हन्ति वै लोहितो व्रणे सजलं तिलतैलम् च अपमार्गस्य मूलकं तत्सेकदानान्नश्ये च प्रहारोत् भववेदना अभयां सैन्धवं शुण्डी मे दत्पिष्ट्वोदघेन तु भक्षयित्वा ह्यजीर्णस्य नाशो भवति शङ्कर कटिबद्धं निम्बमूलमक्षिशूलहरं भवेद क्षणमूलं सदाम्बूलं दग्धमिन्द्रिय कस्य हृद अन्नस्विन्नहरिद्राजश्वेदसर्षपमूलकम् बीजानिमाधुलुङ्गस्य एषा मुद्वरुतनम् समं सप्त रात्र रात्रप्रयोगेण शुभदेहकरम् भवेद् श्वेदापराजितापत्रम् निम्ब पत्ररसेन न स्य दानाड्डागिनीनाम् मातॄणाम् ब्रह्मरक्षसाम् मोक्षस्यान्मधुसारेण नस्याश्च वृषभध्वजा मूलं श्वेदजयन्त्याश्च पुष्यर्क्षे तु समाहृदं। स्वेदापराचितार्कस्य चित्रकस्य च मूलकं कृत्वा तु वटिकां नारीतिलकेन वशी भवेद पिप्पलिलोहचूर्णं तु शुण्डिश्चामलकानि च समानिरुद्रजानीयात् सैन्धवं मधुशर्करा उदुम्बरप्रमाणेन सप्ताहं भक्षणात् समं पुमांश्च बलवान् सस्याज्जीवेद्वर्षशदद्वयम् ॐ ठठ इति सर्ववश्यप्रयोगेषु प्रयुक्तसर्वकामकृतसङ्गृह्य विद्वान्काकस्य निलयम् प्रदहेच्छ तदचिदाग्नौ भस्म तच्छत्रोर्दत्तं शिरसिशङ्कर तमुच्चाढयदे रुद्रशृणुतद्योगमुत्तमं तद्योगमुत्तमं क्षिप्तं च पुरीशं वै वनमूषिकचर्मणि कडितन्दुनिबद्धं वै कुर्यान्मलनिरोधनं कृष्णकाकस्य रक्तेन यस्य नाम प्रलिप्य च्युददले मध्य मध्ये तदो निःक्षिप्य दे हर सखाद्यदेकवृन्दैर्नारीपुरुष नारी च शर्करा मध्वजा क्षीरं तिलगोक्षुरकं समं सशत्रुं सा नाश्ये द्रुद्र उच्चाडिदमिदं उलूककृष्णकाकस्य बिल्स्याधसमिच्छदं रुधिरेण समयुक्तं ययोर्नाम्ना दुहूयदे तयोर्मध्ये महावैरं भवेन्नास्त्यत्र संशयः भाविदं वृक्षदुग्धन मत्स्य रोहितस्य च मांसं तत्साधितं तैलं तदभ्याङ्गाश्च रोगनुद चन्दनोदगनस्य तु रोमोद्धनं भवेत्पुनः अस्ते लाङ्गलिकाकन्दं गृहीतं तेन लेपितं शरीरं येन स पुमान् वृद्धेर्दर्पं व्यपोहदि मयूररुधिरेणैव जीवं संहरदे शिव ज्वलतां दो भुजङ्गानां बिलस्थानामभीश्वर देशश्चिदग्नौ दग्धश्च सर्पस्य जगरस्य हि तद्भस्मसम्मुखे क्षिप्तं शत्रूणां भङ्गकृद्भवेद मन्द्रेणानेन तत्क्षिप्तं महाभङ्गकरं रिपोः ॐ ठ ठठ चाहीः चाहीः स्वाहा ॐ उदरं पाहिः पाहि स्वाहा सुदर्शनायमलं तु पुष्य अर्क्षे तु समाहृतं गृहमध्ये तु भुजङ्गवर्जयन्ति तद् अर्कमूलेन रविणा अर्काग्निज्वलिता अर्का शिवयुक्ता वर्धिर्मार्ग वर हिनाशिनी मार्जार विष्टाहरितालं च जभाविदं चागमूत्रेण तल्लिप्तो मूशिको मूषिको मूषिकान् हरेध मुक्तो हि मन्दिरे रुद्रनात्रकार्याविचारण विफलार्जुनपुष्पाणि भल्लातकशिरीषगं लाक्षा सर्जरसश्चैव विडङ्गश्चैव गुग्गुलुः धूगोमक्षिकाणाम् अशकाणां विनाशनः इति श्रीगारुडे महापुराणे आचार्यकाण्डे नेत्राञ्जनादिनिरूपणं नाम सप्त सप्तत्युत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् सेवेण्टि एय्ट् हरिरुवाच ब्रह्मदण्डीवचाकुष्ठं प्रियङ्कर्नागगेश्वरम् दत्या ताम्बूलसंयुक्तं श्रीणां मन्त्रेण तद्वशम् ॐ नारायण्यै स्वाहा ताम्बूलं यस्य दीयेत स वशीष्य सुमन्त्र ॐ हरिः हरिहि, स्वाहा गोदन्तं हरितालञ्च संयुक्तं काकजिह्वया चूर्णोकृत्य यस्य चिरे दीयते स वशी भवेद श्वेद सर्षपनिर्माल्यं यद्गृहे तद्विनाश्य कृत वैभीतकं शाकोडकं मूलं पत्रेण संयुधम् स्थाप्यते यद्गृहद्वारे तत्र वैकलहो भवेद कञ्जरीटस्य मांसं तुमधुना सह प्रेषयेद हृदु यो निलेपात् पुरुषो दासदामियाद अगुरुं गुग्गुरुं चैव नीलोत्पलसमन्विधम् गुडेन धूपयित्वा दुराजद्वारे प्रियो भवेद् श्वेतापराजिदा मूलं पिष्टं रोचनयायुधं यम् पश्य तिलकेनैव वशी कर्यान्नृपालये निंपपत्रं निम्बपत्रं सुकुङ्कुमम् समायुक्तं वशी भवति आरण्यस्य बिडालस्य गृहीत्वा रुधिरम् शुभं करम् च तैले तद्भाव्यम् रुद्राग्नौ कज्जलम् तदः पादयेत् पद्मपत्रेण हा दृश्यस्यात् तदञ्चनाद ॐ नमः खड्गवज्रपाणये महायक्षसेनापदये स्वाहा ॐ रुद्रं ह्रां ह्रीं वरशक्ता त्वरिदा विद्या ॐ मादरः स्तम्भय स्वाहा सहस्रं परिजप्यात्तु विद्ययं चौरवारिणी महासुगन्धिकामूलं शुक्रं स्तम्भेत् कटौ स्थितम् ॐ नमः सर्वसत्त्वेभ्यो नमः सिद्धिं सप्ताभिमन्त्रितम् कृत्वा करवीरस्य पुष्पगं स्त्रीणामग्रे भ्रामयच्च क्षणाद्वयस्सावशे भवेद ब्रह्मदण्डीम् वजाम् पत्रम् अधुना सह प्रेषयेद अङ्गलेपाच्च वनिता नान्यम् शुक्रस्य स्तम्भनम् मूलम् जयन्त्यावक्रस्तम् व्यवहारे जयप्रथम् भृङ्गराजस्य मूलं तुपिष्टं शुक्रेण संयुधम् अक्षिणी चाञ्जयित्वा तु वशी कर्यान्नम् किल अपराजिताशिखान्दु नीलोत्पलसमन्वितं ताम्बूले नप्रदानाद्या च वशीकरणमुत्तमम् अङ्गुष्ठे जपदे गुल्फे जानौ च जखने तथा नाभौ वक्षसि कुक्षौ च कक्षे कण्डे कपोलके ओष्ठे नेत्रे ललाडे च मूर्ध्नि चन्द्रकला स्थिताः स्त्रीणाम् पक्षे कृष्णे ऊर्ध्वाधः संस्थिता नृणाम् वामाङ्गे दक्षिणाङ्गे चक्रमाधृद्र द्रवादिकृत चतुष्षष्टिकला प्रोक्कृता कामशास्त्रेव शीकराः आलिङ्गनाद्या नारीणां कमारीणां वशीकराः रोचना बन्धुपुष्पाणि निम्बपुष्पं प्रियङ्गवः कुङ्कुमं चन्दनञ्चैव तिलकेन जगद्वशेद ॐ भ्रीं गौरीदेवी सौभाग्यं पुत्र वशादिदेहि मे ॐ ह्रीं लक्ष्मि देवि सौभाग्यं सर्वं त्रैलोक्यमोहनम् सगन्धस्य हरिद्राया कुङ्गुमानां च वश्ये वशयेद् रुद्रधूपश्च तदा पुष्पसुगन्धयोगो दुरालभावजाकुष्ठम् कुङ्कुमं च शदावरी तिलतैलेन संयुक्तम् योनिलेपाद्वशीनरः निम्बकाष्ठस्य धूमेन धूपयित्वा भगम् वधूः सुभगा सियाधि रुद्रपतिर्दसो भविष्य तंज किशन्नवनीत कष्ट मधुयष्टि भगले पा मधुयष्टिश्च गोक्षीरं तथा च कण्डकारिका एतानि समभागानि पिबे दुष्णेन वारिणा चतुर्भागावशेषेण गर्भसम्भवमुत्तमम् माधुलङ्गस्य बीजानि क्षीरेण सह तत्पीत्वलभदे तत्पित्वलभते गर्भम् नात्रकार्या विचारण माधुलङ्गस्य बीजानि मूलान्ये रण्डकस्य च कृतेन सह संयोज्य पाययेत् पुत्रकाङ्क्षिणि तस्वगन्धामृतदुग्धक्रोधितं मुत्रकारकं पदाशस्य तु बीजानि क्षौद्रेण सह प्रेषयेद रजस्वलधुपित्वा स्यात्प गर्भ विवर्जिता इति श्रीगारुडे महापुराणे ण्डे ह्यष्टसप्तत्यधिकशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् सेवेण्टि नैन् हरिरुवाच हरितालम् व्यवक्षारम् पत्राकम् रक्तचन्दनम् जातिहिङ्गुलकम् लाक्षां पक्त्वा दन्तान् प्रलेपयेद् तकी कषायेण मृष्ट्वा दन्तान् प्रलेपयेद दन्दास्युर्लोकिदा पुंसश्वेदा रुद्रणसंशयः मूलकं स्विद्य मन्दाग्नौ रसं तस्य प्रपूरयेत् कर्णयो पूरणतेन कर्णस्रावो विनश्यदि अर्कपत्रं गृहीत्वा दु मन्दाग्नौ तापयेनैः निष्पीड्य पूरयत् कर्णौ कर्णशूलं विनश्यदि प्रियङ्गुमधुक चैव धादख्युत्पलपाङ्क्तिभिः मञ्जिष्टा लोध्रलाक्षाभिक्कभिद्धरसेन च पचेत्तैलं तथा स्त्रीणां नश्येत् क्लेधप्रपूरणाद शुष्कमूलकशुण्डीनां क्षारो हिङ्गुमहौषधं सत पुष्पा पुष्पावजाकृष्टं दारुशिग्ररसाञ्जनं सौवर्चनं यवक्षारं तथा सर्जगसैन्धवं तथा ग्रन्थिर्विडं मुस्तं मधुयुक्तं च दुर्गुणं मात मातुलुं गरस्वस्तद्वत् कल्दल्याश्च रसोहितैः पक्वतैलम् हरे दाशोऽस्त्रावा दींश्च न संशयः कर्णयो कृमिनाशस्यात् कडुतैलस्य पूरणाद हरिद्रानिम्बपत्राणि पिपल्यो मरिचानि च विडङ्गभद्रम् मुस्तञ्च सप्तमम् विश्वभेषजम् गोमूत्रेण च वा कृत्वा च वडिगांहर अजीर्णहृद्भवेच्चैगम्द्वयम् विषूजिकापहम् पडवलम् मधुना हन्ति गोमूत्रेण तदाम्बुदम् यैषराज शङ्करीवर्ति सर्वनेत्रामयापह इति श्रीकारूढे महापुराणे आचार्यकाण्डे एकोनाशीत्यधिकशतमोऽध्यायः अध्यायम् हण्ड्रेड् एण्ड् एयि वचा हरिरुवाच वच तगरं पत्मकेसरं नागपुष्पं प्रियङ्कुञ्ज समभागानि चूर्णयेद् अनेन धूपिदोमर्त्यकामवद्विचरेन्महीं कर्पूरं देवदारुञ्ज मधुना सहयोजयेद लिङ्गले पाचतेनैव वशीकुर्यात् प्रियं किल मैथुनं पुरुषो गच्छे गृह्णीयात्सोगमिन्द्रियं वामहस्तेन वामञ्जहस्तं लिं पेत्तु यस्त्रियः आलिप्ता स्त्रीवशं व्यादिनान्यं पुरुषमिच्छति ॐ रक्तमुण्डे अमुकं वशमानाय आनय ॐ ह्रीं ह्रैं ह्रः इमं जप्त्वा युधं मन्त्रं तिलकेन जशङ्कर गोरोचना संयुतेन स्वरकृन वशी भवेद सैन्धवं कृष्णलवणं सौवीर्यं मत्स्यपित्तगं मधुसर्पिसिदयुक्तं स्त्रीणां तद्भगलेपनाद यः पुमान् मैथुनं गच्छेन् नान्यां नारीं गमिष्यति शङ्खपुष्पीवचा मांसि सोमराजे जफल्गोकम् माधिषम् नवनीतम् च त्वकीकृत्यभिषग्वरः समूलानि स सा पत्राणि क्षीरेणाज्येन ना पोषयेत् गुटिकाम् शोधिताम् कृत्वा नारीयोन्या प्रवेशयेत् दशवारम् प्रसा प्रसूतापि पुनः कन्या भविष्यति सर्षपा च वचा चैव मदनस्य फलानि च मार्जारविष्टा दत्तुरस्त्री केशेन समन्वितः चादुर्थिकहरो धूपो दागिनीजरनाशनः अर्जुनस्य च पुष्पाणि भल्लातक वेदङ्गके बला चैव सर्जरसं सौवीर सर्षपस्तथा सर्पयो कामक्षिकाणां धूमो मशकनाशनः भूतलायाश्च चूर्णेन स्तम्भस्याद्योनिपूरणाद् तेन लेपनदो योनौ भगस्तम्भस्तु जायते इति श्रीकारूडे महापुराणे आचारकाण्डे अशीत्यधिकशततमोऽध्यायः ओ अध्यायम् 181. अण्ड् एय्टि वन् हरिरुवाच ताम्बूलञ्च कृतं क्षौद्रं लवणं ताम्रभाजने तथा पयसमयोक्तं चक्षुशूलहरं परम् हरितगेव चाकुष्ठं व्योषं हिङ्गुमनः कासे श्वास्य च हिकायां लिह्यात् क्षौद्रम् कृप्लुतम् पिप्पली त्रिफलाचूर्णम् मधुनालेखयेन्नरः नश्यदे पीनसः कासश्वासश्च बलवत्तरः समूलचित्रगम्भस्म पिप्पली चूर्णकम् लिघेद श्वासम् कासम् जिकाञ्च मधुमिश्रम् वृषध्वज नीलोत्पलं शर्करा च मधुगम्पत्मकं समम् तण्डुलोदकसम्मिश्रं प्रशमेद्रक्तविक्रिया शुण्डी च शर्करा चैव तद्धा क्षौद्रेण संयुधा कोकिलस्वर येव स्याद्गुटिका भुक्रिमात्रतः हरितालं शङ्खचूर्णम् कदलीदलभस्मना येद्रव्येण चोद्वर्त्य लोमशादनमुत्तमं लवणं हरितालञ्ज तुम्बिन्याश्च फलानि च लाक्षारससमयुक्तं लोमशादनमुत्तमं सुधाजहरितालं च शङ्खभस्ममनःशिला सैन्धवेन सहैकत्र त्यागमूत्रेण पेषयेद तत्क्षणाद्वर्तनादेव शादनमुत्तमं शङ्खमामलकम् पत्रं धाधक्या कुसुमानि च पिष्ट्वा तत्पयसा सार्धं सप्ताहं धारयेन्मुखे स्निग्धा दन्ताश्च भवन्ति विमलप्रभाः इति श्रीगारुडे महापुराणे आचारकाण्डे एकाशीत्यधिकशततमोऽध्यायः ओ अध्यायम् हण्ड्रेड् अण्ड् एय्टि टु हरिरुवाच शरद्ग्रीष्मवसन्तेषु प्रायशोदधिगर्हितम् हे मन्दे शिशिरे चैव वर्षा सुदधिशस्य ते भुक्ते दुशर्करापीदानवनीतेन बुद्धिकृद गुडस्य दुपुराणस्य फलमेकन्दुभक्षयेद स्त्रीसहस्रम् च सङ्घच्छेत् कृत्वा कृतमाक्षिकसंयुतम् भक्षये स्वप्नवेलायां बलीपलितनाशनम् अथ सीमाशगोधूमचूर्णम् कृत्वा तु पिप्पली कृतेन लेपयद्गत्रमोभिः सार्धं विचक्षणः कन्दर्पसदृशो मर्त्यो नित्यं भवति शंकरा। यवास्ति लाश्वगन्धा च मुशली सरलागुडं येभिश्च रचितां जग्ध्वा तरुणो बलवान् भवेद् हिङ्गौ सौवर्सलं शुण्डीं पीत्वा दुःख्वति दोदकैः परिणामाख्य शूलञ्च अजीर्णं चैव नश्यधि दादगीं सोमराजीं च सह प्रेषयेद दुर्बलश्च भवेत् तूलो नात्रकार्याविचारणा शर्करा मधुसंयोनीदम् बली लिहेद क्षीराशीचक्षयी पुष्टिम् मेधाञ्चैव तुलाम् व्रजेद कुलीरचूर्णम् स क्षीरम् पीदञ्जक्षयरेगनुद बल्लादकम् विडङ्गश्च यवक्षारञ्जसैन्धवम् मनःशिलाशङ्खचूर्णं तैलपक्वं तथैव द लोमानि शाधयत्येव नात्रकार्याविचारणा मालूरस्य रस्सं जलौकां तत्र पेषयेद हस्तौ संलेपये तेन त्वग्निस्तम् शाल्मलीरसमदायकरमूत्रे निधायतम् अग्नया दौ विक्षिपेत्तेन ह्यग्निस्तम्भनमुत्तमं वायस्या उदरं गृह्य मण्डूकवसया सह गुटिकां कारये तेन ततोऽग्नौ संक्षैपेत् सुधीः एवमेतत्प्रयोगेण ह्यग्निस्तम्भनमुत्तमम् मुण्डित्वक्च्च वचामुस्तं तगरं तथा चर्वित्वा सद्यो जिह्वया ज्वलनं लिखेद गोरोचनां भृङ्गराजं चूर्णो कृत्यकृदं समं दिव्याम्भस्सस्तम्भनं स्यान् मन्द्रेणानेन वै तथा ॐ अग्निस्तम्भनम् गुरु गुरु ॐ नमो भगवते जलं स्तम्भय सं केककेकचरचर जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयदे शिव गृध्रात्स्थिं च गवास्थिं च तदा निर्मल्यमेव च हरेर्यो निकनिद्वारे पञ्चत्वमुपयाधिसः पञ्चरक्तानि पुष्पाणि पृथग् जात्या समालभेद कुङ्कुमेन समायुक्तमात्मरक्तसमन्विधम् पुष्पेण दुसमं पिष्ट्वा रोचनायाः पलैकदः स्त्रिया पुंसा कृतो रुद्रतिलको यं वशीकरः ब्रह्मदण्डीदुपुष्येण भक्ष्ये पाने वहीकरः यष्टिमधुपलैकेन पक्वमुष्णोदकम् पिबेद विष्टम्भिञ्च हृच्छूलम् हरत्येव महेश्वर ॐ ह्रूं जः मन्द्रोऽयम् हरदे रुद्र सर्व सर्ववृच्छिकजम् विषम् टिप्पलीनवनीतं च शृङ्गवेरं च सैन्धवं मरीचं दधिकुष्ठञ्जनस्ये पाने विषं हरेद तृफलाद्रककुष्ठं चन्दनं हृदसंयुधं येदत्पानाचलेपाच विषनाशो भवे चिवा पारतस्य चाक्षीणि हरितालं मनशिला यदद्योगाद्विषं हन्दि वैनदेय इवो रगान् सैन्धवम् त्र्यूष्णम् चैव दधि मध्वाज्यसंयुधम् वृच्छिकस्य विषं हन्दि लेपोऽयम् वृषभध्वज ब्रह्मदण्डीतिलान् क्वाद्यचूर्णम् त्रिकटुकम् पिबेद नाशयेद्रुद्र गुल्मानि निरुद्ध्रम् रक्तमेवजा पीत्वा क्षीरं क्षौद्रयुधं नाशयेदसृजस्तुतिम् आटरूपकमूलेन भागं नाभिं च जेपयेद सुखं प्रस्तूयते नारी नात्रकार्या विचारण शर्करां मधुसंयुक्तां पीत्वा तण्डुलवारिणा रक्तादिसारशमनम् भवति वृषध्वज इति श्री गारूडे महापुराणे आचारकाण्डे द्व्याशीत्यधिकशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् एय्टि त्री हरिरुवाच मरीचं शृङ्गवेरं च कुडजत्वचमेव च पानाच्च ग्रहणी नश्ये च शाङ्गाङ्गितशेखर पिप्पली पिप्पली मूलं मरिचं दगरं देवदारुरसं पाठां क्षीरेण सह प्रेषयेद अनेनैव प्रयोगेण ह्यति सारो मरी च तिलपुष्पाभ्यामञ्जनं कामलापहम् हरीतकी समगुडामधुना सहयोजिता विरेचनकरीरुद्र भवती दिनसंशयः त्रिफला चित्रकं चित्रं तथा कडुकरोहिणी उरुस्तम्भहरं ह्येदुत्तमं दुविरेचनम् हरीतगी शृङ्गवेरं देवतारुजचन्दनं क्वाधये चागदुग्धेन अपामार्गस्य मूलकम् ऊरुस्तम्भं जयन्त्या वा सप्तरात्रेण नाशयेत् अनन्दाशृङ्गवेरस्य सूक्ष्मचूर्णानि कारयेत् गुगुलं गुडुतुल्यं च गुडिकामुपयुज्य च वायुस्नायुगदम् चैव अग्निमन्द्यम् च नाशयेद सङ्ग पुष्पीन्तु पुष्पेण समुद्धृत्य सपत्रिकां समूलां छागदुग्धेन अपस्मारहरम् पिबेद अश्वगन्धाभये चैव उदकेन समम् पिबेद रक्तम् पित्तम् विनश्येतु नात्र कार्याविचारणा हरीतकी कुष्ठचूर्णं कृत्वा हास्यं च पूरयेद शीतं पीत्वा तपनीयं सर्वच्छार्दिनिवारणं गडूची पद्मकालिष्टधान्यादं रक्तचन्दनं पित्तश्लेष्मज्वर चार्दि दाहतृष्णाघ्नम् अग्निकृत ॐ हुं नम इति श्रोत्रे बद्ध्वा शङ्खपुष्पीं ज्वरं मन्द्रेण वैहरेद ॐ जम्भिनी स्तम्भिनी मोहय सर्वव्याधीन्मे वज्रेण ठः ठः सर्वव्याधीन्मे वज्रेण भटिति पुष्पमष्टशतं जत्वा नखं स्पृशेद चादुद्धिको ज्वरो रुद्र अन्ये चैव ज्वरस्तथा जम्बूफलम् हरिद्राजसर्पस्यैव दुःखञ्चूकम् सर्वज्वराणाम् धूपोऽयम् हरश्चातुर्थिकस्य च करवीरं भृङ्गपत्रम् लवणम् कुष्ट च दुर्गुणेन मूत्रेण पचेत्तैलंहरे च तद् पापां विचर्चिकां कुष्टमभ्यङ्गाद्धिव्रणानि वै पिप्पलिमधुपाना च तथा मधुरभोजनं प्लीहा विनश्यते रुद्रतथा सूरणसेवनाद सेवनाद हरिद्राञ्च गोमूत्रेण समन्वितां प्रक्षिपे च गुतद्वारे अर्शांसि विनिवारयेद अजा दुग्ध दुग्धमार्द्रपञ्चपीतं प्लीहादिनाशनम् सैन्धवञ्ज विडङ्गानि सोमराजीतु सर्षपाफ रजनीद्वे विषं चैव गोमूत्रेणैव पेषयेद कुष्टनाशश्च तल्लेपान्निम्बपत्रादिना तथा इति श्रीगारूडे महापुराणे आचारकाण्डे त्र्याशीत्यधिकशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् एय्टि फोर् हरिरुवाच रजनीकदलीक्षारलेपसिद्धमविनाशनः कुष्टस्य भागमे कन्दुपध्या भागद्वयं तथा उष्णोदकेन सम्पीयकडिशूलविनाशनम् अभयानवनीतञ्च शर्करा पिप्पलीयुधम् पानादर्शोहरं स्याच्च नात्र कार्या विचारण आडरूषकपत्रेण कृतं मृद्वग्निना पचेद चूर्णं कृत्वादु तु अर्ष अर्श रोगभरः परः गुगुलुत्रिफलायुक्तम् पीत्वा नश्येद्भगन्तरम् अजाजी शृङ्गवे रञ्जदण्डमण्डम् दधामण्डम् विपाच एत लवणेन दु संयुक्तम् मूत्र कृच्छ्रविनाशनम् यवक्षारं शर्कराजमूत्रकृच्छ्रविनाश्यकृत चिदाग्नि कञ्चरीडस्य विष्टाभेनोहयस्य च सौभाञ्जनं वासनेत्र नर एतैस्तुधूविदः अदृश्य स्त्रिदशै सर्वैः किम् पुनर्मान शिव तिलतैलम् यवां दग्ध्वा मशीं कृत्वा दुलेपयेद् तेनैव सखतैलेन अग्निदग्धः सुखी भवेद् लज्जालोशरपुङ्खाया लेपसाज्योऽग्निनाशनः ॐ नमो भगवते ठ ठ छिन्धिछिन्दिज्वलनं प्रज्वलितं नाशय नाशय करे बद्धं तु निर्गुण्ढ्यामूलम् ज्वरहरं धृतं मूलञ्च श्वेद गुञ्जाया कृत्वा तत् सप्त कण्डकम् हस्ते बध्वानाश्रये च अर्षां सेवनसंशयः विष्णुक्रान्ताजमूत्रेण चौरव्याघ्नादिरक्षण ब्रह्मदण्ड्यास्तु मूलानि सर्वकर्माणि कारयेद त्रिफलायास्तु चूर्णम् हि साज्यं कुष्ठविनाशनम् आज्यं पुनर्नवा वा बिल्वै पिप्पलीभि साधितम् हरेद्धकां स्वसकासौ पीदं स्त्रीणां च गर्भकृतं भक्षयद्वा नरिबीजम् पयः साज्येन पाजितं कृतशर्करया युक्तम् विडङ्गम् मधुकं पाठां मांसीं सर्जरसन्त रहिद्रां तृफलाञ्च मार्गं मनःशिलाम् उदुम्बरं दातकीं च तैल तिलतैलेन प्रेषयेद योनिं लिङ्गं च म्रेक्षेद स्त्रीपुंसो स्यात्प्रियं मिथः नमस्ते ईश्ववरदाय आकर्षिणि विकर्षिणि मुग्धे स्वाहा इति योनिलिङ्गस्य तैलेन शङ्करंलक्षणा ततः पुनर्नवामृदा दुर्वा कनकञ्चैद्र कनकञ्चैन्द्रवारुणि रसेन रसमर्दनम् मूषाय मध्यकं कृत्वा रसं मारणमेरिधम् मध्वाज्यसहितं दुग्धं बलिफलितनाशनं मध्वाज्यं गुडताम्रञ्चकारल् रसस्तथा रससस्तधा भवेद् द्रौप्यं सुवर्णकरणं शृणु पेदं धर पुष्पञ्च सीसकञ्च फलं मदम् ङ्गिलिकाया शाखा च स्वर्णञ्च दत्तूरबीजतैलेन दीपप्रज्वलनाद्धरा समाधागुपविष्टन्तु गगनस्थो न पश्यति वृषस्य मृण्मा यस्यैव युक्तो भेगो निगृह्यते शङ्करा वयवैर्युक्तो धूपं क्रात्वा जगर्जति विस्मयं गुरुदे चैव वृषवन्नात्र संशयः रात्रौ च सार्षपं तैलं कीटं कद्योतनात्मकं ताभ्यां देवप्रज्वलितो वाग्मिज्वालकलापवद चूर्णं चुच्छुन्दरीधं दग्ध्वा रुद्रप्रलेपयेद तप्यदे तक्षणा दग्धो यदि सम्यक् प्रलेपयेद् चन्दनेन भवेन्मोक्षपानाल्लेपा सुखी भवेद् कुञ्जरस्य मदाकृतस्य स्वयम् नेत्रे शिववाञ्चयेद् युद्धे विजयदे सोऽपि महाशूरश्च जायते दन्तं दुण्ढुपसर्पस्य मुखे सङ्गृह्य वैक्षिपेद तिष्ठते च जलान्तस्तु निर्विकल्पं स्थले यथा कुम्भीरनेत्रदंष्ट्राश्च अस्ति निरुधिरं तथा वसतैलसमायुक्तमेकत्र तन्नियोजयेद् आत्मानं लक्षयेत्तेन जले तिष्ठे दिनत्रयं कुम्भीरकस्य नेत्राणि हृदयं मूषिकस्य वसास्ती निशिशुमारवसा तथा दा। यदन्ये कत्र संलेपा गृहे लोहचूर्णं लो लो लो लो तक्रबेदं पाण्डुलोहरं पाण्डुरोगहरं भवेद् तण्डुलीयक गोक्षूरमूलं पेदं पयोन्वितं कमलादिहरं पेदं मुखरोगहरं तदा जातिमूलं तक्रपीतं कोलमूलं त्व जीर्णनुद सदक्रं कुशमलं वा मर्कडीमूलमेव का वा काञ्चिकेन च कुच्या मूलं वैदन्तरोगनुद तथेन्द्रवारुणिमूलं वारिपीदं विषादिहृद सुरभि मूलभानाद्वातनाशो भवेच्छिव शिरोरोगहरं लेपात् गुञ्जा चूर्णं सकाञ्चिकं बला चातिबला यष्टिशर्करा मधुसंयुधा वन्ध्यागर्भगरीपीदानात्रकार्याविचारणा श्वेता पराजितामूलं पिप्पली शुण्ठिकायुधम् परिपृष्टं शिरोलेपाचिरशूलविनाशनं निर्गुण्ठिकाशिखां पीत्वा गण्डमालां विनाशयेद केदगीपत्रजं क्षारं गुडेन सह भक्षयेद तक्रेण शरपुङ्खां वा पीत्वा प्लीकां विनाशयेद माधुलङ्गस्य निर्यासं गुडाज्येन समन्वितम् वादपित्तजशूलानि हन्दिवैपानयोगतः शुण्डे सौवर्चलं हिङ्गुपीदं हृदयरोगनुद इति श्रीकारुडे महापुराणे आचारपाण्डे वैद्यशास्त्रे चतुरशीत्यधिकशततमोऽध्यायः ओम् अध्यायं हण्ड्रेड् अण्ड् एय्टि फैव् हरिरुवाच आम गणपदये इति अयम् गणपतेर्मन्द्रो धनविद्याप्रदायकः इममष्टसहस्रञ्च जत्वा बद्ध्वा शिखां ततः व्यवहारे जयस्या च शतम् जापान्नणाम् प्रियः तिलानाम् तु कृतानाम् कृष्णानाम् रुद्रकोमयेद अष्टोत्तरसहस्रम् तु राजा वश्यस्त्रिभिर्दिनैः अष्टम्याञ्च चतुर्दश्या मुपोष्याभ्यर्च्य विघ्नराड तिलाक्षतानां जिहूया दष्टोत्तरसहस्रकम् अपाजिदस्याद्युद्ध्य